कृष्णयजुर्वेदीय एकाग्निकाण्डं प्रय अदितेनु मन्यस्व अनुमतेनु सरस्वतेनु सरस्वतेनुमन्यस्व देव सविदप्रसुव ॐ अग्नये स्वाहा सोमाय स्वाहा विश्वेभ्यो देवेभ्य स्वाहा ध्रुवाय भूमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा अग्नये स्विष्टकृते स्वाहा अदिते न्वमग्स्थाः सरस्वतेऽन्वमभृस्ताः देव सवित्रप्रासाविः धर्माय स्वाहा अधर्माय स्वाहा अद्भ्यः स्वाहा ओषधि वनस्पदिभ्यः स्वाहा रक्षोदेवजनेभ्यः स्वाहा गृहाभ्य स्वाहा अवसानेभ्यः स्वाहा अवसानपदिभ्यः स्वाहा सर्वभूतेभ्यः यदे जदि जगदि यच्च चेष्ठदी नाम्नो भागोऽयं नाम्ने स्वाहा पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्य स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापदये स्वाहा ब्रह्मणे स्वाहा स्वधापितृभ्य स्वाहा न मो रुद्राय पशुपदये स्वाहा ये भूदा प्रचरन्ति दिवानक्दम् बलिमिच्छन्दो विदुदस्य प्रेष्याः तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपदेर्दधातु स्वाहा ये वन् 1.1 वन् विवाहमन्त्राः हरिः ओम् प्रसुग्मन्दा धियसानस्य सक्षणि वरेभिर्वरागुम् अभिषु प्रसीद अस्माकमिन्द्र उभयं जुजोषधि यत् सौम्य स्यान्धसो बुबोधदि अनृक्षरा ऋजवसन्तु पन्था येभिः सखयो यन्ति नो वरेयं समर्यमा संभगोनो नो निनीयात्सं जास्पत्यगुं सुयममस्तु देवाः अभ्रातृघ्निं वरुणापदग्निं बृहस्पदे इन्द्रापुत्रग्निं लक्ष्म्यं तामस्यै सविदस्सु वा अघोरचक्षुरपदिग्नेधि शिवापदिभ्यः सुमनास्सुवर्चाः जीव सुर्देवकामास्य न शन्नो भवद्विपदे शञ्चदुष्पदे इदमहं या त्वयि पदिघ्नलक्ष्मिष्ठां निर्दिशामि जीवागुं रुदन्ति विमयन्ते अध्वरे दीर्घामनुप्रसितिं दीधियुर्नरः वामं पितृभ्यो य इदगं समेरिरे मह्यपदिभ्यो जनह्य परिष्वजे एक्षत्क्रूरमुदचन्त्वाप अस्यै ब्राह्मणा स्नपनगुं हरन्तु अविरग्निरुदचन्द्वापः अर्यम्णो अग्निं परीयन्तु क्षिप्रं प्रदीक्षन्ताग्श्र्वो देवराश्च के नः सखे रथ के युगस्य शचीपते अपालामिन्द्र त्रिःपो्यपरत्सूर्यवर्चसं शन्ते हिरण्यगुं शमो सन्त्वापश्यन्ते मेधि भवतु शं युगस्य शन्द आपशतपवित्रा भवन्त्वधापत्या तन्वगुं सगुं सृजस्व एकाग्निकाण्डम् वन् पायिण्ट् टु हिरण्यवर्णाशुचयपावका वद्यमापः शतम् पवित्रा ताभिष्ट्वा देवः सविता पुनादु हिरण्यवर्णाशुच यः पावका या सुजाधकश्यपो या, या अग्निगर्भं दधिरेषु वर्णास्तास्त आपश्यग्स्यो न यासा गुम्राजा गुं राजा वरुणो यादिमध्ये सत्या नृते अवपश्यन् जनानाम् या अग्निम् गर्भम् दधिरे सुवर्णास्तास्त आपश्यगृस्यो ना भवन्तो या सा आम् देवादिविकृण्वन्ति भक्षय्या अन्तरिक्षे बहुधा निविष्टाः या अग्निगर्भं दधिरे सुवर्णास्तास्थ आपश्रस्यो न भवन्तु शिवे चक्षुषा पश्यन्त्वापः शिवया तन्वोपस्पृशन्तु मृदश्चुदशुचयो याः पावकास्तास्त आपश्यब्दस्यो ना परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः वृद्धायुमनुवृद्धयो जुष्टा भवन्तु जुष्टयः आशा साना सौमनसंप्रजागुं सौभा अज्ञं तनूम् अग्नेरनुव्रदा भूत्वा सं नह्ये सुकृतायकम् पूषा त्वेतो नय दुःखस्तगृह्याश्विनौ त्वा प्रवहता गुं गृहान् गच्छ गृहपत्नी यथा सो वशिनीत्वं विदधमा वदासि एकाग्निकाण्डं वन् पाय्ण्ट् त्रि सोमः प्रथमो विविधे गन्धर्वो विविध उत्तरः तृतीयो अग्निष्टे पदिस्तुरीयस्ते मनुष्यजाः सोमो ददगन्धर्वाय गन्धर्वो दददग्नये ददद रयि च पुत्रागश्च ददग्निर्मह्यमधो इमाम् गृह्णामि ते सुप्रजास्त्वाय हस्थम् मया पत्या जरदष्टिर्यथा भगो अर्यमासविदा पुरन्धिर्मह्यं त्वा दुर्गार्हपत्याय देवाः देह जनासो यत्र पूर्ववहो हिताः मोर्धन्वान् यत्र सौभ्रवः पूर्वो वाजिनीवधि तान्त्वा विश्वस्य भूतस्य प्रगायामस्य ग्रतः ययेति प्रदिश्य सर्वादिशोऽनुपवमानः हिरण्यहस्त ऐरम्मसत्त्वा मन्मनस्सं कृणोतु एकमिषे विष्णुस्त्वान्वेदो द्वे ऊर्जे विष्णुस्त्वान्वेदो त्रीणिव्रताय विष्णुस्त्वान्वेदो चत्वारि मायोभवाय विष्णुस्त्वान्वेदो पञ्चपशुभ्य विष्णुस्त्वान्वेदो षड् रुदुभ्य विष्णुस्त्वान्वेदो सखा सप्तपदा भव सखायौ सप्तपदा बभूव सख्यं ते गमेयगुं सख्या ते मा योषगुं सख्यान् मे मा योष्ठा समयावसङ्कल्पा वहै सम्प्रीयौ रोचिष्णु सुमनस्य मानौ इषमोर्जमभि संवसा नौ सन्नौ मनागुंसि संवृदा समुचितान्याकरम् मोह ममोहमस्मि सा त्वं पृथिवीत्वगुं रेदोह गुं मनोहमस्मि वात्वगुं सा माहमस्मि सा मामनुव्रता भवपुगुं से पुत्राय वेत्त वै सूनृते एकाग्निकाण्डं वन् सोमाय जनिविदे स्वाहा गन्धर्वाय जनविदे स्वाहा ज्ञे जनिविदे स्वाहा कन्यदापि दृभ्यो यदि दी पदिलोकमव दीक्षा मदास्त स्वाहा प्रेदो मुञ्जादिना मोद सुबद्धा ममुतस्करद यधेयमिन्द्रमीढ्वस्वपुत्रा सु सुभगा सति ये सुभगां सु कुरु दशास्यां पुत्रानाधेहि पदिमेकादशम् कृधि अग्निरैदु प्रथमो देवतानागुम् सोऽस्यै प्रजां मुञ्जदो मृत्युपाशाद तदयगुं राजा वरुणोनुमन्यं यधे यग्स्त्री मकम्न, न रोदाद इमामग्निस्त्रायदां गार्हपत्य प्रजामस्यै नयदु दीर्घमायुः अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुद्ध्यदामियम् माते गृहे निशिकोष उद्धादन्यत्र त्वत् रुदत्य संविशन्तु मा त्वं विकेश्युर आवद्धिष्टा जीवपत्नी पदिलोके विराजपश्यन्ती प्रजागुं सुमनस्य माना द्याौस्ते पृष्ठगुं रक्षदो वायु रूरू अश्विनौ च स्थनं दयन्तगुं सविताभिरक्षतु आ वासस परिधानात् बृहस्पतिर्विश्वे देव अभिरक्षन्तु पश्चाद अप्रजस्तम् पौत्र पा मृत्युम् पाप्मानमुदवाखम् शीर्ष्णस्रज मि वोन्मुच्य द्विषद्भ्यप्रदि मुञ्जामि पाशम् इमे वरुणश्रुधि हवमद्या च मृडयास्युरा चे तत्वायामि ब्रह्मणा वंदमान स्दाशास्थे यजमोह विर् अहेडमानो वह बोध्युरशं सयु प्रमोषी त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोव यासि तिष्ठाः यजिष्ठो वह्नितमशोऽशुचानो विश्वाद्वेषागृंसि प्रमो मुग्भ्यस्मद सत्वन्नो अग्ने वमो भवो दीनेधिष्ठा अस्या उषसो व्युष्टौ अवयक्ष्वनो वरुणगुं रणो विहि मृडिकगुं सुहवो नयेधि एकाग्निकाण्डं 1.5 पायिण्ट् फैव् आतिष्ठे मम त्वग्स्थिरा भव अभितिष्ठपृतन्यदसहस्व पृतनायतः इयं नाज्युपब्रूदे कुल्पान्या वपन्विका दीर्घायुरस्तु मे पदेर्जीवादो शरदशतं तुभ्यमग्रे पर्यवहन् सूर्याम् वहतु ना सः पुनः पदिभ्यो जायां दा अग्ने प्रजया मत्नी राधा दायुषा सहवर्चसा वर्चसा दीर्घायुरस्य यः पदि विश्वा उद त्वया वयं धारा उदन्या इव अधिगाहमेषिद्विषः आतिष्ठे ममस्मानम् अर्यमणं नु देवं कन्या अग्निमयक्षद स इमां देवो अध्वर प्रेदो मुञ्जादि नामुद सुबद्धा ममुदस्करत् तुभ्यमग्रे पर्यवहन् पुनः पत्नीमग्निरदाद विश्वा उद त्वया वय मा तिष्ठे ममश्मानं त्वमर्यमा यत्कनीनां नाम स्वधावत्स्वर्यं बिभर्षि अञ्जन्ति वृक्षगुं सुधितं न गोभिर्यद्दम्पती समनः सा कृणोषि तुभ्यमग्रे पर्यवहन् पुनः पत्नीमग्निरदाद विश्वा उदत्वया वयं त्वा मुंजा वरुस् पाशाद्वा बध्ना सविदा सुके धाधुश्चनौ सुतोकेोनंद सह पत कौमी इमं विश्यामि वरुस् पाशं यम बधनी दसविदा सुषेव धातुस्ो नौ सुतके सह पतिया कयाष्टाने नीषस्त्यमया असी अयस मनसा घृतो यः सा हव्यकिशेया नो देहि भेषजम् एकाग्निकाण्डं वन् पाय्ण्ट् सिक्स् सत्येनोत्तभिदा भूमिः सूर्येणोत्तभिदा द्यौः ऋतेनादित्यास्तिष्ठन्ति दिवि धिश्रुतः इञ्चन्धिब्रध्नमरुषं चरन्तं परितस्तुषः रोचन्ते रोचनादिवि योगे योगे तवस्तरं वाजे वाजे हवामहे सखाय इन्द्रमूतये एकिगुं शुकगुम् चल्मलिं विश्वरूपगुं हिरण्यवर्णगुं सुवृतगुं सुचक्रम् आरोह वध्वमृतस्य लोकगृस्यो नम्पत्ये वहतुं कृणुष्व उदुत्तरमारोहन्ति व्यस्यन्ति पृतन्यदः पत्युरा पत्युरारोहप्रजया प्रजया विराड्भव सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्रुवां भव ननान्तरिसम्राज्ञी भव सम्राज्ञी अधिदेवृषु स्नुषाणाग्शुराणां प्रजायाश्च धनस्य च पतीनां च देवृणाञ्च सजातानाम् विराड् भव भवदकृत्या शक्तिर्व्यज्यते ये धन्दे स्या ज्ञातयः बध्यते ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्दिजनागुम् अनु पुनस्तान यज्ञीया देवा नयन्तु यद आगताः मा विदन् परिपन्धिनो य आसीदन्दिदम्पती सुगेभिर्दुर्गमदीदामभद्रान्द्वराधयः सुगन् पन्थान मारुक्ष मरिष्ठग्स्वस्तिवाहनं यस्मिन्वीरो न ऋष्यत्यन्येषां विन्ददेवसू एकाग्निकाण्डं वन् पायिण्ट् सेवेन् ता मन्दसाना मनुषो दुरोण आधत्तगुम्रयुं दशवीरं वचस्य वे कृतं तीर्थगं सुप्रपाणगं शुभस्पदीस्ताणुं फेष्ठामभ दुर्मदिगुं सदम् अयन्नो मह्याः पारग्रस्वस्तिनेषद्वनस्पतिः सीरा नः सुतरा अस्य पारे निरुद्धस्य जीव hmm. ज्योतिरशीमहि मह्या इन्द्रस्वस्तये यदृते चितसृषः पुरा जृभ्य आदृदः सन्धाद सन्धिं मखव पुरो वसोर्निष्करुता विहृदं पुनः इडामग्ने पुरुदगुं सघुं सनिं गो शश्वतमघुं हवमानाय साध स्यान्न सो नुस्तनयो विजावाग्ने साधे सुमधिर्भूत्वस्मे इमं मे वरुणश्रुधि हवमद्या मृडया त्वाम वस्युराचके तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानोहविर्भिः अहेढमानो वरुणेह बोद्युरुषगुंस मान आयुः प्रमोषीः त्वम् नो अग्ने वरुणस्य विद्वान् देवस्य हेडोव यासि सिष्ठाः यजिष्टो वह्नि तमस्योऽशुचानो विश्वाद्वेषागुंसि प्रमो मुग्ध्यस्मद सत्वन्नो अग्नेवमो वमो भवो अस्या उषसो व्युष्ठौ अवयक्ष्वनो वरुणगुं रणो वीहि मृडीकगुं सुखवो न एधि त्वमग्ने अयासि अयासन् मनस्साहिदः अयासन् हव्यमोहिषे अयानो देहि भेषजम् इष्टो अग्निराहुतः स्वाहा कृदपि पर्तुनः स्वपा देवेभ्य इदं नमः ये गन्धर्वा अप्सरसश्च देवीरेषु वृक्षेषु वानस्पत्येष्वासदे शिवास्ते अस्यै वध्वै भवन्तु माहिगुं शिशुर् वहदु मोह्यमानाम् यावोषधयो या यानि या धन्वानि ये वना त्यधु प्रजा वदीं प्रत्वे मुञ्चन्त्वगुंहसः सङ्काशयामि वखदुं ब्रह्मणा गृहैरखोरेण चक्षुषा मैत्रेण पर्याणद्धं विश्वरूपं यदस्यागस्योनं पदिभ्यः सविदा कृणोतु तद आ वा मगन्सुमधिर्वाजिनि वसून्यश्विना हृत्सु कामागुम् अयगुं सदा अभूत गोपा मिधुना शुभस्पदी प्रिया हर दुम अशीमहि देव वस्विदा दिदा बृहस्पतिद्राग्नी मित्रा स्वस्तये स्वस्था विषु प्रजयासगुं रराणकाम आयादं कामायत्वा विमुञ्चतु एकाग्निकाण्डं वन् पायिण्ट् एय्ट् शर्म वर्मेदमाहरास्यै नार्या उपस्तिरे सिनी वालिप्रजायदामियं भगस्य सुमता वसद गृहान् भद्रान् सुमनः सः प्रपद्ये वीरघ्नि वीरवत सुीरान् इरां वहदो कृदमुक्ष मुक्ष मानास्तेष्वह गुं सुमना संविशामि आगन् महिषि गोभिरश्वैरायुष्मत्पत्नी प्रजया स्वरुविद बह्वीं प्रजां जनयन्ती सुरत्नेममग्निगुं शद हिमा सपर्याद अयमग्निर्गृहपदि सुसगुं सत् पुष्टिवर्धनः यथा भवस्याभ्यां ददध्रयिं पुष्टिमधो प्रजाम् प्रजाया आभ्यां प्रजापद इन्द्राग्निशर्म यच्छदं यथैन यौर्न प्रमीयाता उभयोर्जीवतो प्रजा तेन भूदेना हविषायमाप्यायतां पुनः जायां यामस्मा आवाक्षुस्तागं रसेनाभिवर्धदाम् अभिवर्धदां पयसाभिराष्ट्रेण वर्धदां रय्यासहस्र पोषसे मौस्तामनपेक्षितौ इहैवस् मा वियोष्ठं विश्वमायौर्व्यश्नुदं मह्या इन्द्रस्वस्तये ध्रुवैधिपोष्या मयि मह्यं त्वादाद् बृहस्पतिः मया प्रजावदी सञ्जीवशरदशम् त्वष्टा जाया मजनय त्वष्टास्यै त्वां पदिं त्वष्टा सहस्र मायोगं शिदीर्घमायु कृणोदो वाम् इमं मे वरुणश्रुधि हवमद्या च मृडय त्वाम वस्योराचके तत्त्वा यामिब्रह्मणा वन्दमानस्तदा शास्ते यजमानोहविर्भिः अहेडमानो वरुणेः भोद्युरुषगुंस मान आयुप्रमोषीः त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य एडोव यासि सिष्ठाः यजिष्ठो वह्नितमस्योऽशुचानो विश्वाद्वेषागुंसि प्रमो मुग्ध्यस्मद सत्वन्नो अग्नेवमो भवोदीनेदिष्टो भवोदिनेदिष्ठो अस्या उषसोऽव्युष्ठौ अवयक्ष्वनो वरुणगुं रणो विहि सुहवो नयेधि त्वमग्ने अयासि अयासन् मनःसाहिदः अयासन् हव्यमूहिषे अयानो देहि भेषजं युष्टो अग्निराहुतः स्वाहा कृदपि पर्तुनः स्वगादेवेभ्य इदं नमः एकाग्निकाण्डं वन् पाय्ण्ट् नैन् इह गावः प्रजायद्धुवमिहाश्वा इह पूरुषाः इहो सहस्रदक्षिणो रायस्पोशो निषीदु सोमेनादित्या बलिनः सोमेन पृथिवी दृढा अधो नक्षत्राणामेषामुपस्थे सोम आधितः प्रस्वस्तः प्रेयं प्रजया भुवने शोचेष्ठ इह प्रियं प्रजया ते गृहे गार्हपत्या येनापत्या तन्वगुं सगुं सृजस्वाधा जीव्री विदध मा वदासि सुमङ्गीलीयं वधूरि मागुं सौभाग्यमस्यै दत्त्वा याधास्त्वं विपरेतन ध्रुवक्षेदेर्ध्रुवयोनिर्ध्रुवमसि ध्रुवतः स्थितं तन्नक्षत्राणां मध्यसि समापाहि पृतन्यतः सप्तर्षयप्रथमां कृत्तिकानामरुन्धदिं य ध्रुवदागुम् निन्युषट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकमेधत्वष्टमी सद सस्पदिमद्भूतं प्रियमिन्द्रस्य काम्यं सनिं मेधाम या शिषम् जाद जादवेदोपघ्नन्युहृदिं मम सशुगृश्च मह्यमावह जीवनञ्च दिश्यो दिश मानो हि गुंसि जागवेदो गामश्वं पुरुषं जगद अभिभ्रदग्न आगहि श्रिया मा परिपातय एकाग्निकाण्डं वन् उदिष्वादो विश्वावसो नमसेडामहेत्वा अन्यामिच्च प्रफर्वगुं सञ्जायां पत्या सृजा उदिर्ष्वादपदिवदीह्येष विश्वावस्सुं नमसा गीर्भिरीटे अन्यामिच्च विदृशदम् व्यकृगुंसदे भागो जनुषा तस्य विद्धि अग्ने ए प्रायश्चित्ते त्वम् देवानाम् प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये यास्याम् पदिग्नि तनु प्रजाग्नि पशुग्नि लक्ष्मीघ्नि जारघ्निमस्यैदां कृणोमि स्वाहा वायो ओ प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नादकामप्रपद्ये यास्यां पदिग्नि तनो प्रजाग्निपशुघ्नि लक्ष्मीघ्नि जारग्निमस्यैदां कृणोमि स्वाहा आदित्यप्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाह्मप्रपद्ये यास्यां पदिग्नि तनूप्रजाग्नि पशुघ्नि लक्ष्मिघ्नि जारघ्निमस्यैदाम् कृणोमि स्वाहा प्रसवश्चोपयामश्च काढश्चार्णवश्च धर्मसिश्च द्रविणं च भगश्चान्तरिक्षं च सिन्धुश्च समुद्रश्च सारस्वाभिश्च विश्वव्यचाश्च तेयं द्विष्मो यश्च नोद्वेष्टि तमेषां जम्भे दद्मस्वाहा मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चर्षश्चोर्जश्च सहश्च सहस्यश्च तपस्च तपस्यश्च तेऽयं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मस्वाहा चित्तञ्च चित्तिश्चाकूतं चाकोदिश्चाधितं चाधितिश्च विज्ञातं च विज्ञानं च नाम चक्रतुश्च दर्शश्च पूर्णमासश्च तेऽयं द्विष्मो यश्च नोद्वेष्टि तमेषाम् जम्भे दत्मस्वाहा भूस्वाहा भुवः स्वाहा सुव स्वाहोग्रस्वाहाग्निकाण्डम् वन् पायिण्ट् इलवन् अपश्यन् त्वा मनसा चेकितानाम् तपसो जातम् तपसो विभूतम् इह प्रजामिह रयिगुम् रराणप्रजायस्वप्रजया पुत्रकाम अपश्यन् मनसा दिध्यानाग् स्वयम् तनूगुम् ऋत्विये नाधमानम् उपमामुच्चा युवदेर्बग्भू याः पुत्रपामे समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ सं मादरिष्व सं दादा समुदेष्टि दिदेष्टो नौ प्रजापदे तन्वं मे जुषस्वत्वष्टर्देवेभिः सह साम इन्द्र विश्वैर्देवैरादिभिः सगुं रराह्ण पुगुं सां बहूनां मादरस्यामाम् आनप्रजां जनयदुक् प्रजापदिरा जरसायसमनाक्वर्यमा अधुर्मङ्गलीपदि लोकमाविशन्नो भवद्युपदे शं च दुष्पदे तां पुषिवतमामेरयस्व बीजं मनुष्या वपन्ति यान ऊदु उशति विस्र यस्य मुश्यन्तप्रहरेमशेफम् एकाग्निकाण्डं 1.12 पायिण्ट् ट्वेल्व् आरोहोरुमुप बरुहस्व बाहुं परिष्वजस्व जायागुं सुमनस्य मानः तस्यां पुष्यदम्मिधुनौ स योनि बह्वीं प्रजां जनयन्तौ सरेतसा आर्द्रयारण्या यत्र मन्दत्पुरुषं पुरुषेण शक्रः तवेत्तौ मिथु नौ सयोनी प्रजया मृतेनेष गच्छदम् अहम् गर्भमदधा मोषधिष्वहम् विश्वेषु भुवने ष्वन्तः अहम् अजनयम् पितृणामहम् जनिभ्यो अपरीषु पुत्रान् पुत्रिणेमा कुमारिणा विश्वमाय व्यश्नुदम् उ बाहिरण्यपेजसा विदिहोत्रा कृदधद्वसु दशस्यन् त्वा मृताय कगुं शमूधो रोमशग्गुं हधो देवेषु कृणुतो दुवः एकाग्निकाण्डं विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिगुंसतु आसिञ्चतु प्रजापतिर्धादा गर्भं दधातु ते गर्भं देहि सिनीवालि गर्भं देहि सरस्वती गर्भन्धे दे अश्विनौ देवा पुष्करस्रजा हिरण्ययि अरण्यं निर्मन्धदो अश्विना तन्दे गर्भगुं दशमे मासि सूतवे यधेयम् पृथिवीमहि तिष्ठन्ति गर्भमादथे एवं त्वं गर्भमाधत्स्वदशमे मासि सूतवे यथा पृथिव्याग्निगर्भाद्या यथेन्द्रेण गर्भिणी वायोर्यथा दिशं गर्भ एवं गर्भम् दधामि ते विष्णो श्रेष्ठेण रूपेणास्यां नार्यां गवीन्यां पुमाधुंसं गर्भमाधेहि दशमे मासि सूतवे नेजमेष परापद सुपुत्र पुनरापद अस्यै मे पुत्र कामायै गर्भमाधेहि यः पुमान् यस्य पुत्रो धीयतां गर्भो अन्धः तम् बिभर्तु स जायदां आते गर्भो योनिमेदु पुमान् बाण इवेशुधिम् आवीरो जायदां पुत्रस्थे दशमास्यः एकाग्निकाण्डम् वन् 1.14 फोर्टीन् करोमि ते प्राजापत्यमा गर्भो अनूनपूर्णो जायतामशोणोऽपिशाच भीतः पुमाभिष्टे पुत्रो मारितं पुमाननुजायतां तानि भद्राणि बीजान्यरुषभाजनयन्तु नौ यानि भद्राणि बीजान्यरुषभाजनयन्तिनः तैस्त्वं पुत्रान् विन्दस्व सा प्रसूर्धेनुका भव कामप्रमृद्यदान् मह्यमपराजितमेव मे यङ्कामम् कामये देवतं मे वायोः समर्धय अनुहवम् परिहवम् परिवादम् परिक्षपं दुःस्वप्नं दुरुपितं तद्विषद्भ्यो दिशाम्यहम् अनुहोदं परिहोदगुंशपुनेर्यदशकुनम् मृगस्य श्रुतमक्ष्णया तद्विषद्भ्यो दिशाम्यहम् आरात्ते अग्निरस्त्वारात् परशुरस्तुते निवादे त्वाभिवर्षतुस्वस्तितेस्तु वनस्पदे स्वस्ति मेस्तु वनस्पदे नमशत्सदे रुद्राय नमो रुद्राय शकृत्सदे ए गोष्ठमसि नमस्ते अस्तु मामा हिगुंसीः सिगसि नसि वज्रो नमस्ते अस्तु मामा हिगुंसीः उद्गादेव शकुने साम वायसि ब्रह्मपुत्र इव सवनेषु शगुंससि स्वस्ति न शकुने अस्तु प्रदिनस्तुमना भव एकाग्निकाण्डम् वन् पायिण्ट् फिफ्टीन् प्रादरग्निं प्रादरिन्द्रगुं हवामहे प्रादर्मित्रावरुणा प्रादरश्विना प्रादर्भगं प्रादर पूषणं ब्रह्मणस्पदिं प्रादसोममुदरुद्रगुं हुवेम प्रादर्जिदम् भग मुग्रगंम वैम पुत्रो विधर्ता आद्रश्चिद मनमस्थुिद्रजाचिद भगम भक्षी तह भग प्रणेदर्भगस्यरधो भगे मं धन नग प्रण जनयगोभिरश्वायर्भग प्र नृभिर्नृवन्दस्याम उते दानीं भगवन्दस्या मोदप्रपित्वा दा उदमध्ये अह्नाम् उदोदिदा मघवन् सूर्यस्य वयं देवानागुं सुमतौ स्याम भग एव वा भगवागुम् अस्तु देवास्तेन वयं भगवन्तः स्याम तं त्वा भग सर्व इज्यो हवीमि स नो भग पुरा येदा भवेः समध्वरायोषसो न मन्द दधिक्रवेवशुचये पदाय अर्वाचीनं वसुविधं भगन्नो रथमिव अश्वाजिन आवहन्तु अश्वावधिर्गोमतीर्न उषासो भीरवदे सदमुच्छन्तु भद्राः क्रदं दुहाना विश्वद प्रपीना यूयम् पादस्वस्तिभिः सदा नः एकाग्निकाण्डम् वन् पायिण्ट् सिक्स्टीन् ये माम् खनाम्योषधिम् विरुधम् बलवत्तमां यया सपत्नीम् सुभगे सहमाने सहस्वती सपत्नीं मे पराधमपतिं मे केवलं कृधि उत्तराहमुत्तर उत्तरे दुत्तराभ्यः अधा सपत्नीया ममा धरा साधराभ्यः सह्यस्मै नाम गृह्णामिनो अस्मिन् रमते जने ए परामेव परा वदगुं सपत्नीं नाशयामसि अहमस्मि सखमानाधत्वमसि सा सहीः उभे सहस्वती भूत्वा सपत्नी ईं मे सहा वहै उप ते धागुं सकमानमभि त्वा धागुं सहीयसा मामनुप्रदे मनो वत्सं गौरिवधावदुपधा वारिवधावदो एकाग्निकाण्डं वन् पायिण्ट् सेवेन्टीन् उदत्सौ अगा उदय माको भग अहम तला पदीमभ्यक्षी विषा सी अहम केदुरस मूर्ध मुग्र विवाचनी मे दुक्रदुंपदी से उवाचरेत मम पुत्रा शत्रुघनोधो मे विराट उदाहमस्मि सञ्जय पत्युर्मे शोक उत्तमः येनेन्द्रो हविषा कृत्यभवद् दिव्युत्तमः अहं तदकृदेवा असपत्ना असपत्ना सपत्निघ्नी जयन्त्यभि भूवरी आवित्सि सर्वासागुं राधो वर्चो अस्थेयसामिव समजयिषमिमा अहगुं सपत्नीरभि भूवरीः यथाहमस्य वीरस्य विराजामि धनस्य च एकाग्निकाण्डं वन् पायिण्ट् एय्टीन् अक्षिभ्या ते नासिकाभ्यां कर्णाभ्यां चुबुकादधि यक्ष्मगुं शीर्षण्यं मस्तिष्काजिह्वाया विवृहामिते ग्रीवाभ्यस्त उष्णिहाभ्यकेकसाभ्योऽनोक्याद यक्ष्मं दोषण्यमगुं साभ्यां बाहुभ्यां विवृहामिते आन्ध्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदया दधि यक्ष्मं मदस्नाभ्यां यज्ञप्लाशिभ्यो विवृहामि ते गुरुभ्यां तेष्टिवद्भ्यां जङ्काभ्यां प्रपदाभ्यां यक्ष्मग्श्रोणीभ्यां भासदा गुं ससो विवृहामिते मेह नाद्वलङ्करणालोमभ्यस्ते न केभ्यः यक्ष्मगुं सर्वस्मादात्मनस्तमिमं विवृहामि ते अङ्गादङ्गालों नो लों नो जादं पर्वणि पर्वणि यक्ष्मगं सर्वस्मादात् मनस्तमिमं विगृहामि ते परा बल्यं ब्रह्मभ्यो विभजा वसु कृत्यैषा पद्वदि भूत्वा जाया विशदे पतिम् अश्लीला तनुर्भवति रुषधि पापयामुया पदिर्यद्वध्वै वाससा समङ्गमभिधिसधि क्रूरमेदत्कडुकमेदपाष्टवद्विष वन्नैतदत्तवे सो रियां यः प्रत्यक्षं गृहीयाद आशसनम विशसनमधो अतिचर्दनम सूर्या पश्यूपिता ब्रह्मोदशुं सदी ए कांडे प्रथम प्रपाटक